गणेशपुराणं क्रीडाखण्डम् अध्यायं 149 अण्ड् फोर्टि नैन् क उवाच एवं पूजां सम्प्रगृह्य तत्रैवन्यवसद्विभुः भक्तानां पूरयन् कामान् सदने राजपूजिते मुनिरुवाच विनायकस्य माहात्म्ये कदा भिन्ना निरूपिताः अवतीर्य वरेण्यस्य गृहे विघ्ना सुरोहदः गजासुरमुखप्राप्तिर्वर्णिता चतुरान अत्रैव पार्वती गर्भादाविर्भावो निरूपिताः गजाननतया देव संश्रयोदो ममा भवत त्वदन्यः संशयेच्छेत्ता नास्त्येव भुवनत्रये क उवाच न कार्यसंशयो शम्भुवक्त्रा चक्रोधाच्च प्रादुर्भूदो गजाननः गौर्याश्च तेजसो जाद उदराच्च क्वचिन्मुने क्वचिद् गौरीमलाच्चापि द्विमुखो द्विकर क्वचिद् क्वचित् पञ्चमुख दशबाहुकः क्वचिद्वादशहस्तश्च सहस्रभुजमण्डितः आगमेषु समस्तेषु नानाध्यानानि सन्ति न ना चात्र संशयकार्यो विस्मयो वा मुने प्रभौ शिवाग्ब्रह्मा च विष्णुश्च लैङ्गे जादौ निरूपितौ स्कान्ते विधा दुर्नेत्रा च शिवोत्पत्तिर्निरूपिता विष्णुशिवं ध्यायति च शिवोऽपि विष्णुमेव च पञ्चाक्षरं समन्त्रं च तारकं वदति प्रभुः शतकोटिमिदं रामचरितं च मध्यलोके तारकं सस्थापयामासशङ्करः क्वचिच्चिवात्सृष्टिरुक्ता ब्रह्मणश्च क्वचिद्धरेः भगवत्या क्वचित् प्रोक्ता क्वचित् सूर्याद् गजाननाद् क्वचित् च ब्रह्मण प्रोक्ता सर्वं संशयं कुरु दे यस्तु सयादिनरकं ध्रुवं क उवाच एवं त्रेधा युगकथा प्रोक्ता सर्वा मुने तव इदानीमभिधास्यानि कदां कलियुगाश्रुधा कलिप्रान्ते मुने लोका भ्रष्टाचारास्तथा नृताः ब्राह्मणा वेदरहेदास्नानसन्ध्या विवर्जिताः यजनं याजनं या दानं न करिष्यन्ति कर्षिचित् प्रदिग्रहं च दुण्डानां करिष्यन्ति सुदुर्लभं परापवादं तन्निन्दां परस्त्रीधर्षणं तथा करिष्यन्ति जनाः सर्वे विधिलोपं च सर्वशः विश्वासखादं सर्वत्र कुर्वन्ति जना ध्रुवं विधिलोपे च शपथं करिष्यन्ति तरातले न करिष्यन्ति मेखाश्च वृष्टिं क्वापि मुनीश्वर देशे जनाहा। यो बली सोप्य बलिनो महानदीतीरदेशन हरिष्य धनम बला हरिष्ययस्ताभ्या बलात्न शूद्र वेद पढ़िष्य ब्राह्मण शूद्रकर्म क्षत्रिया वैश्यकर्माणों वैश्या शूद्रकर्म प्रतिग्रह क्यों चांडाल्द्विजा दरिद्रश्चिष्यहा भूद विचेत वदिष्य मैया गृहतनमी गृही कृत्याय या चितारोधनम् पराद उत्कोचं च गृहीत्वैव वृथा साक्ष्यं ब्रुवन्ति च सदां निन्दा करिष्यन्ति मैत्रीं चासद्भिरेव च वृथा मांसस्य भक्ष्यं च करिष्यन्ति द्विजातयः उच्चेदसज्जनानां स्यादितरेषां च वैभवं हित्वादेवान् भविष्यन्ति जनाः सर्वे तथैन्द्रिकान् भूदप्रेदपिशाचानां भजने सक्तमानसाः वेषान्नाविधान् कृत्वा भक्षयिष्यन्ति वाडवाः के भिक्षां, अकुलोचिदां, व्रतानि व्रता निर्मचा न चरष्य कर्षिचिद वर्णसरकारी कर्ता कर्मा भूजन पतिव्रता भ्रष्ट्रता भविष्य कलौ युगे प्राया शर्वोका पररद्रव्यापहिण निर्धया कुपथध सकता सर्वदा सस्वर्जिता धर सीना चीना महीहा पंचमें वाधे वा वर्षे कन्या प्रसूयते षोडशाब्दपरं चायुर्भविप्यदि तदा युगे तीर्थानि गुप्तरूपाणि देवतायतनानि च एवं पापे प्रवृद्धे दुधर्मे विश्वार्थमात्रकः भविष्यन्ति तदा देवा उपवासपरायणाः स्वधा स्वाहावषत्कारैर्वचिताभयविह्वलाः यास्यन्ति शरणं देवं गजाननमनामयं स्तुतिं नानाविधां तस्य करिष्यन्ति नदीं बहु प्रार्थयिष्यन्ति देवेश्यं सर्वविघ्नविनाशनम् एवं सर्वं विचार्यासौ आविर्भावं करिष्यति गजाननस्योर्पकर्णो धूम्रवर्णोऽपि नामधव नीलमश्वं समारुह्य खड्गहस्तोरुषाज्वलन् कल्पयिष्यति सेनां स नानारूपां निजे चया शस्त्राणि जहास्त्राणि कल्पयिष्यत्ययत्नदः वधिष्यदि महा म्लेच्छान् सेनया स्वेन तेजसा म्लेच्छ भूतांस्तथा लोकान् वधिष्यति तदाखिलान् लीलान् कन्दरदेशे शुभ्राह्मणान् वन्यभक्षणः समानाय प्रभो जयितान् भूमिं दास्यति देवराट सत्कर्मकारिणः सर्वान् विचाल्यति सज्जनान् तदा धर्ममयम् विश्वम् भविष्यति कृते युगे एवं कृत्वा धूम्रवर्णस्तदोऽन्तर्धानमेष्यति एवं च दुर्युगे व्यासविघ्नेशस्य महात्मनः कथितानि च नामानि रूपाणि च तवानक कर्माण्यद्भुतरूपाणि तस्य चोक्तानि सर्वशः येषां श्रवणमात्रेण मुच्यन्ते सर्वजन्तवः अनन्यस्याणि रूपाणि शक्तिरस्ति मे यत्र वेदाश्च चत्वारो विकुण्ठास्तत्र पाकथा मम वा मद्विधस्यापि महिं नस्तस्य वर्णने अनुष्ठानाय गच्छत्वं व्यवसायं करोम्यहं भृगुरुवाच एवं श्रुत्वा सोमकान्तव्यासो ब्रह्ममुखात् कथा अतिप्रेदमनाः प्राह सर्वपापप्रणाशिनीं मुनिरुवाच न तृप्तिमधिगच्छामि श्रुत्वाख्यानं महाद्भुतं धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया सर्वसंशयाः दूरीकृता कथासङ्गात् गणेशचरिताश्रयात् अमृतस्येव मे तृप्तिश्रुत्वा श्रुत्वा न जायते अस्य श्रवणमात्रेण जन्मजन्मान्तरार्जितं वृजिनं नाशमायादि सर्वे कामा भवन्ति च पूर्वपुण्यबलादस्य श्रवणम् जायते नृणाम् न दुर्जनायेदं पुराणं सर्वसिद्धिम् एवमुक्त्वा नमस्कृत्य परिक्रम्य स्वयम्भुवम् गृहीत्वाज्ञां ययौ व्यासस्तपसेवनमुत्तमं यत्र कन्दफलान्याः जलानि च न वायुप्रबलो यत्र नादपो नाग्निरेव च तत्रोपविष्टैकनिष्ठो जपन्नेकाक्षरं मनुं व्यदीयोर्धा दशाब्दानि मुनेस्तस्य तपस्यतः तदप्रादुरभूतस्य पुरतस्तु गजाननः क्रीडा क्रीड़ाखंडे मुनि दुत्तर विसर्जनम नामकोनपंचाशदुतरशतम